a wow. य नमो नमः शिवाय कनकमहामणि भोषितलिङ्गं shivani व nam shivaya namo namah shivaya shiva ka शिवाय नमो नमः शिवाय शिवाय नमो नमः शिवाय शिवाय नमो नमः शिवाय लिङ्गाष्टकम् इदं पुण्यं यः पठे शिवसन्निध शिवलोकं वाप्नोति शिवेन सहमो ते ति